हरि ओम् वाजश्चामि प्रसमिष्ठ्यामि प्रयतिष्ठामि प्रसिष्ठामि रीतिष्ठामि प्रतिष्ठामि स्वरष्ठामि श्लोकश्चामि श्रवश्चामि अश्रुतिष्ठामि ज्योतिष्ठामि स्वच्छामि जन्मेन कल्पन्ताम् प्राणश्चामि पाश्चामि ज्ञानिष्ठ्यामि षष्ठामि चित्तञ्चम आधीताञ्चमे वाच्यामि मनुश्च मे चक्षश्च मे श्रोत्रं च मे दक्षश्च मे फलं च मे जद्मेन कल्पन्ताम् ओजश्च मे सश्च आत्मा च मे तनुश्च मे शर्म च मे ब्रह्म च मेङ्गानि च मे स्त्रीनि च शरीराणि चम आयुश्च जरा च मे जग्मेन जयिष्ठ्यञ्चम आधिपत्यञ्चमे मन्यश्च मे धामश्च मे मश्चमेम्बश्च मे जेमाच मे महिमाचमे वरिमाच मे प्रथिमाच मे वर्मा च मे द्राहि मा च मे वृद्धञ्च मे वृद्धिश्च मे जज्ञेन कल्पन्तम् सत्यञ्च मे श्रद्धा च मे जगच्छ मे धनञ्चमे विश्वञ्चमे माश्चमे क्रीडा च मे मोदश्च मे जातञ्च मे जनिक्षमाणं च मे सूक्तञ्च मे सुभृतञ्च मे जग्मेन कल्पन्तम् ऋतञ्च मे नृतञ्च मे लक्ष्मञ्च मे नामयक्ष मे जीवातिश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मे भयं च मे सुखञ्च मे शयनञ्च मे सुदीनं च मे जग्मेन कल्पन्तम् ऋतञ्च मे ऋतञ्च मे यक्ष्मञ्च मे नामश्च मे जीवादिश्च मे दीर्घायुत्वञ्च मेन मित्रञ्च मे भजञ्च मे सुखञ्च मे शयनञ्च मे सुखाश्च मे सुदीरञ्च मे जग्न कल्पन्ताम् झन्ता च मे धृता च जन्मेन कल्पन्तम् शञ्चमे मयश्च मे प्रियञ्च मे नुकामश्च मे कामश्च मे सौमनवश्च मेत् भविश्च मे द्रविणञ्च मे भद्राञ्च मे श्रेयश्च मे वसीयश्च मेत् यशश्च मे जग्नेन कल्पन्तम् पूर्च मे सुहृता च मे परश्च मे रसिष्ठमे घृतञ्चमे मधुच मे सघृष्ठ मे स्वपीतिष्ठ मे घृष्ठ मे वृष्टिश्च मे जयित्रञ्चमभिद्य मे जन्मेन कल्पन्तं पूर्णञ्चमे पूर्णपरञ्च मे कुय वञ्चमे च्छ मे जग्नेन कल्पन्तम् वित्तञ्चमे वेद्यञ्च मे भूतञ्च मे भविमि सुगञ्च मे सुभति अरुद्धञ्चम अरुधिष्ठ मे क्लुप्तञ्च मे क्लुप्तिष्ठ मे मतिश्च मे सुमतिष्ठ जग्नेन कल्पन्तम् वीरश्च मे जवाश्च मे माघाश्च खल्वाष्टमे प्रियङ्गवष्टमे णवश्चमे श्यामाकाश्च मे नीवाराष्टमे गोधूमाश्च मे मसूराष्टमे यज्ञेन कल्पन्तम् अश्माच मे मृत्तिका च मे गिराष्टमे प्रभृताष्टमे श्रीकृताष्टमे वनस्मतष्टमे हिरण्यञ्च मे अष्टमे श्यामञ्च मे लोहञ्च मे सीसञ्च मे त्रपुच मे अग्निश्चम आपश्च मे वीरुदश्चम ओघ मे कृष्टपश्चाश्च मे कृष्ण पश्चाश्च मे ग्राम्याश्च मे पशव आरण्याश्च मे वित्तञ्च मे वित्तिष्ठ मे भूतञ्च मे भूतिष्ठ मे जन्मेन कल्पन्तम् वसुच मे वसतिष्ठ एमश्चम इत्याश्च मे गतिष्ठमे अग्निश्चम इन्द्रश्च मे सोमश्चम इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती चम इन्द्रश्च मे पूका च म इन्द्रश्च मे बृहस्पतिश्च मरुतश्च म इन्द्र शमे विश्वे देवा इन्द्रश्च मे जग्मेन कल्पन्तम् पृथिवी च म चम इन्द्रश्च मे दौश्चम इन्द्रश्च मे समाश्च चम इन्द्रश्च मे धिशश्च म इन्द्रश्च अग्षुश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्चम उपाब्षश्च मे इन्द्रजामश्चम अयिन्द्र वायवश्च मे मैत्रावरुणश्चम अश्विनश्च मे प्रति प्रस्थानश्च मे शुक्रश्च मे भी च मे जग्ने न कल्पन्ताम् आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानश्चम अइन्द्रादनश्च मे महावैश्वदेवश्च मे मर्त्वतीयाश्च मे निखकैवल्यश्च मे सावितरश्च मे सारस्वतश्च मे पात्नीवतश्च मे आयुयोजनश्च मे जग्मेन कल्पन्ताम् शुचश्च मे च मसाश्च मे वायुव्यानि च मे द्रोणकलशश्च मे ग्रावाणि मे दिखवणे च मे पूतपश्चम आधवनीयश्च मे वरेहिश्च मे व्रजश्च मे स्वगाकारश्च मे जग्मेन कल्पन्ताम् अग्निश्च मे घर्मश्च मेनश्च मे सूरजश्च मे प्राणश्च मेष्वेनश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मेङ्गुलयः शक्वरयो दिषश्च मे जन्मेन कल्पन्ताम् व्रतञ्च मृतपश्च मे तपश्च मे संवत्सरश्च मे होरात्रे बृहद्रथन्तरे चमे जग्मेन कल्पन्ताम् एकाच मे तिसरश्च मे तिसरश्च मे पञ्च चमे पञ्च च मे सप्त चमे सप्तच मे नव चमे नव चम एकादश चम एकादश चमि त्रयो ओ दश च मि त्रय नव दश चम एकविघ्निंषरिष्ठम एकविघ्निंषरिष्ठमे त्रयो विग्ंशरिष्यामि त्रयो विग्निंशरिष्यामि पञ्चविघ्षरिष्यामि पञ्चविघ्निंषरिष्ठमे सप्त विद्ंशरिषा मे सप्त विद्विंशरिष्ठा मे नव विघ्नीषरिष्ठमे नव विग्ंशरिष्ठम एक त्रिग् गच्छाम एकत्रिग् ष्यामि त्रय त्रिग् गच्छामि जग्ने न चतुसृश्चमेष्टौ च मेष्टौ च मे द्वादश च मे द्वादश च मे ोडश च मे खोडश च मे विग्निषतिष्ठ मे विद्मिंषतिष्ठमे चतुर्विघ्नींषतिश्च मे चतुर्विघ्नीषतिश्च मेष्टा विग्निषतिश्च मेष्टा विग्निषतिष्ठ मे द्वात्रिग्ी चतुश्चत्वारि द्विषच्च मे चतुश्चत्वारि द्विषच्चमेष्टाचत्वारि द्विषच्च मे जग्नेन कल्पन्ताम् त्र्यविष्टमे त्र्यवीच मे वित्यवाक्ष्य मे द्वित्यौ नीच मे पञ्चाविष्टमेत् पञ्चावीच मे त्रिवत्सश्च मेत् त्रिवत्सा च मे त्रिजवाक्ष्य मे त्रिजौ वीच पृष्ठौ चम उक्षा शम अरेखावश्चमे वैश्च मे नृवांश्च मेधेनुश्च मे जग्नेन कल्पन्ताम् वाजाय स्वाहा प्रसवाय स्वाहा पिजाय स्वाहा कृतवे स्वाहा वसवे स्वाहा हर्पतये स्वाहा मे मुग्धाय स्वाहामुग्धाय वै नग्षिनाय स्वाहा विनग्ंषिन अन्त्यायनाय स्वाहान्य भौवनाय स्वाहा भुवनस्य पत ये स्वाहाधिपत ये स्वाहा प्रजापत ये स्वाहान्मित्राय झन्तासि यमन ऊर्जे त्वा वृष्टे त्वा प्रजानान्त्वाधिपत्याय आयुजज्ञेन कल्पताम् प्राणो जज्ञेन कल्पोताञ्जक्षुजज्ञेन कल्पोताग् श्रोत्राञ्जज्ञे नकल पोताम् वाग्जज्ञे नकलपोताम् मनो जज्ञे नकल् पोतामात्मा यज्ञे नकल पोताम् ब्रह्माजज्ञे नकलपोताञ्ज्योतिर्जज्ञे नकल पोता पुष्वलजज्ञे नकल पोताम् पृष्ठाञ्जज्ञे नकल् पोताञ्जज्ञो जज्ञे नकल पोताम् स्तूमश्च जजुश्चरित्यष वेच्छ रथन्तरञ्च स्वदेवा अवन्मा मृता अभूम प्रजापतेः प्रजा, प्रजा अभूम वेत्स्वाहा वाजस्यानुप्रसवे मातरम् महीमदितिन्नाम वचसागरामहे यस्यामिदम् विश्वम् भुवनमाविवेश तस्यान्नो देवः सविता धर्मसा विश्वे अद्यामऋतो विश्व ऊरु विश्वे भवन्तनयः सुमिद्धाः विश्वे नो देवा अवसागमन्तु विश्वमस्तु द्रविणम् बाजो अस्मि वाजो, वाजो नः सप्तप्रदीशश्चतस्रोवापुरावतःजो नो विश्वैर्देवैर्धनुसाता विहावतु वाजो नो अद्य प्रसुवातिदानम् वाजो देवामृतुभिः कल्पयाति वाजो हिमा सर्ववीरञ्झजानविश्वा आशा वाजपतिर्झम् वाजः पुरस्तादुतामध्यातो नो वाजो देवान्हविकाव्रदयाति वाजो हिमा सर्ववीरञ्झकार सर्वा आशा वाजपतिर्भवेयम् संमा सृजामि पयसा पृथिव्याः सम्मासृजा पृथिभि रोखधीभिः <coughs> सोवाम्बाशंसने अमगने पयः पृथिव्याम्पय ओषधिपयो दिव्यान्तरिक्षेपयो धाः पयस्वतीः प्रदिशहः सन्तु मयजम् देवस्तत्वा सवितुः प्रसवेऽश्विनुबाहुव्याम्बु वष्णो हस्ताभ्राम् स्वरस्वत्यवाचोजान्द्रजान्द्रेणागणे साम्राज्येनाभिषिञ्चामि ऋताकारमागनिर्गान्धर्वस्तस्य उगदयुवप्सरसो मुधू नाम स न इदम् ब्रह्मक्षत्रम् पातु तस्मै स्वाहा वाट्टाभ्याः स्वाहा सद्तो विश्वसा मासुर्जो गान्ध्रवस्तस्य अमरीजयुवप्सरस आयुवो नाम स न इदम् ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट्टाभ्या स्वाहा सुखं नहासूर्ज स्मिश्चन्द्रमा गन्धर्वस्य नक्षत्राण्यप्सरसो भे कुरनाम स न इदम् पातु तस्मै स्वाहा वाट्टाभ्या <coughs> स्वाहा विश्वव्यजा पातो गन्धर्वस्तस्यापो अप्सरस ऊर्जो नाम स न इदम् ब्रह्मक्षत्रम् पातु तस्मै स्वाहा वाट्टाभ्यः स्वाहा भुजुरो सुणो जज्ञो गान्ध्रव्रस्य दक्षिणा अक्षरस स्थावानाम् स न पातु तस्मै स्वाहा वाट्टाभ्यः स्वाहा प्रजापतिर्विश्वकर्मा मनो गान्ध्रव्रस्य ऋक्सामान्य सरस एष्टयो नाम स न इदम् ब्रह्मक्षत्रम् पातु तस्मै स्वाहा वाट्टभ्या स्वाहा स पते प्रजापते यस्य च उपरि ब्रह्माणे अस्मै क्षत्रायमहिषयच्छ स्वाहा समुद्रोऽसि न भस्वा नार्द्रदानु शम्भुवम् स्वाहा मारुतोऽसि मरुताङ्गणः शंभुवर्मयो भूरभिमा वा हि स्वाह वसूरसिन् शम्भुवर्मयो भूरभिमा वा हि स्वाहा जास्ते अग्ने सुवर्जे रुचो दिव मा तन्वन्ति लश्मिभिः ताभिन्नो अद्य सर्वाभिरुचे जनायनुकृति जा देवाः सुजे रुचो वोक्वश्वे कुजा ऋचाम् इन्द्रावनीताभिः सर्वाभिरुचं नो नत्त वृहस्पते रुचं नो धेहि ब्राह्मणे कुरु चिन्द्राज सुनस्कृतिः रुचम् विश्वे कुसुभद्रे कुमयुधेहि रुचा ऋचम् रुचा तत् अहेडमानो वरुणे हुवजुरुषग्मु समान् आयुः प्रमोही स्वर्णघर्मः स्वाहा स्वर्णार्कः स्वाहा स्वर्णशुक्रः स्वाहा स्वर्णज्योतिः स्वाहा स्वर्णसूर्यः स्वाहा अग्निम् युनयमिष मो सावृतेन दि सपर्णम् वयसा वृहन्तम् तेन भयङ्गमेम ब्रह्मस्य विष्णप गुस्वोरुहाणा अधिराकमुत्तमम् इमौ ते पक्षावजरौ पत्रिणौ जाभ्याग्निरक्षा गुस्थपः गुस्सने ताभ्याम्बतेम सुकृतामुधूकञ्जत्राकयो जग्मुः प्रथमजाः पुराणाः इन्दुदक्षाश्चेन ऋता बाहिरण्यपक्षा शकुलो मोहान् सरस्ते ध्रुव आमि भनो नमस्ते अस्तु मामाजिषी दिवो मूर्धासि पृथिव्यानाभिरुर्गपामोखधीनाम् विश्वायुः शर्म सप्रथानमस्पथे विश्वस्य मूर्धान्न तिष्ठति सितः समुद्रे ते हृदयनुस्वायुरपो दत्तो दधिन्त दिवस्पर्जान्यादन्तरिक्षापृथिव्यास्ततो नो वृष्ट्याम इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः तस्य न इष्टस्य प्रीतस्य द्रविणेहागमेः इष्टो अग्निराहुतःपि कर्तु न इष्टग्हवी स्ववेदम् देवेभ्यो नमः यदाकृताक्षमशुश्रुवधृतो वामनसो वासंभृतञ्चक्षुको वाम् तदनुप्रेत सुकृतामुदुकञ्ज त्रलिखयो जग्मुः प्रथमाः पुराणाः एतद् ददामि जमावहाञ्जातवेदाः हन्वाघण्टाजज्ञपत्रो अत्र स्मजानीत परमे व्यो परमेव्यो वन्देवा सदस्थाभिधरूपमस्य जदागच्छत् पथि हृदेव यानै निष्ठापूर्ते क्रीणवाथाविरस्मै उद्बुद्धस्वागने प्रति जागरित्वा मिष्टापूर्ते सज्ञथामयञ्च अस्मिन् सदस्थे अद्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत जेनवासि सहस्रम् जेनाग्ने भवेदसम् तेनेमाञ्जज्ञान्दो नयस्वर्देवे पुगान्तवे प्रस्तरेण परिहीनाश्रुचा वेद्या च परिहिमञ्जज्ञान्दो नयस्वर्देवे पुगन्तवे यद्दत्तम् यदानाञ्जत्कुवर्ताञ्जाश्च दक्षिणाः तदग्निर्व्यश्वकर्मणः स्मृतेवे खुनो दधत यत्र दारा अनपिता मधुरधृतस्य च जाः तदग् निर्वयश्वकर्मणः स्वर्देवेखु नो दधत अग्निरश्मि जन्मना जात भेदाभृतं मे चक्षुरमृतम् आसन्न हर्तस्त्री धातुरजसु विमानो जस्रो धर्मो अविरश्मिनामो त्रो नामास्मि यजुवङ्खि नामास्मि सामानि नामास्मि जे अग्नयः पञ्च जन्या अस्याम् पृथिव्यामधि ते कामसि त्वमुत्तमः प्रलो जीवातवे सु भार्तहत्याय शवसे वृतनाखाढ्याय च इन्द्रत्वावर्तयामसि स दानुम् पुरुहूत क्षियन्तमस्तमिन्द्रसं विण कुणारुम् अभिवृत्रम् व्रथमानम् तिरारुमपादमिन्द्र तव सा च गन्थ विन इन्द्र मृदो जिनी चा मृगो न आजगन्था परस्याः गिरिष्ठाः परावत आजघन्थापरस्याः श्रीकद्विमिन्द्रदिग्माम्बिशत्रुवन्ता ढिव्यमेधोऽनुरस्व वैश्वानरो न ऊतय आप्रयातु परावतः अग्निन्दः सुष्टुतीरूप पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओघनीरादिवेश वैश्वानराहासहसा पृष्टो अग्निः स नो दिवासरि घस्पातु नक्तम् अश्याम तङ्गामग्ने तभूति अश्यामरयिन्द्रयिवा सुवीरम् अश्याम्राजमभि वाजयन्तु अश्यामद्युम् नम जराचरन्ते वयन्ते अध्वरीमाहि काममुत्तानहस्ता नमसोपसद्यौ यजिष्ठे स चेतसु अविश्वे देवाजज्ञम् ब्रावन्तु नाशुभे त्वञ्जविष्ठदाशुको नेयाम्भे पाहि शृणुधी गिरा रक्षातु इति अष्टादशः